अभ्यषिञ्चत्तदा रामः सुग्रीवं वानरेश्वरं ततः सवीर्यवान् राजं स्तरयन् वै समुत्सुकः विचित्य वायुपुत्रेण लङ्कादेशं निवेदितं सेतुं बद्ध्वा समुद्रस्य वानरैः सहितस्तदा सीतायाह सीतायाः पदमन्विच्छन् रामोऽलङ्कां विवेशः देवोरगगणानां हि यक्षराक्षसपक्षिणां तत्रावध्यम् राक्षसेंद्रं रावणं युधि दुर्जयं युक्तं राक्षसकोटिभिर्भिन्नाञ्जनचयोपमम् दुर्निरीक्ष्यम् सुरगणैर्वरदानेन दर्पितम् जघानसचिवैः सार्धम् सान्वयम् रावणम् रणे त्रैलोक्यकण्टकं वीरम् महाकायम् महाबलम् रावणम् सगणम् हत्वा रामो भूतपतिः पुरा लङ्कायाम् तं महात्मानं राक्षसेन्द्रम् विभीषणम् अभिषिच्य च तत्रैव अमरत्वं ददौ तदा आरुह्यपुष्पकं रामः सीतामादाय पाण्डव सबलः स्वपुरं गत्वा धर्मराज्यमपालयत् दानवो नाम मधोः पुत्रो महाबलः शत्रुघ्नेन हतो राजंस्ततो रामस्य शासनात् एवम् बहूनि कर्माणि कृत्वा लोकहिताय सः राज्यञ्चकारविधिवद्रामो धर्मभृतांवरः दशाश्वमेधानाजह्रे जारुधिस्थान निरर्गलान